सर्वेषाम् दीयताम् देयम् मुञ्चन्कोपमदावुभौ साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम् एवम् गते ततस्तस्मिन् पितरी विद्यते द्वेष्टा ततोऽ स्याजातशत्रुता परिग्रह नरेन्द्रस्य भीमस्य परिपालनात् शत्रूणां क्षपणाच्चैव बीभत्सोत्सव्यसाचिनः धीमतः सह देवस्य धर्माणामनुशासनात् वैनत्यात् सर्वतश्चैव नकुलस्य स्वभावतः अविग्रहावीतभयाः स्वधर्मनिरताः सदा निकामवर्षास्फीताश्च आसन्दनपदास्तथा वार्धुषी यज्ञसत्त्वानि गोरक्षम् कर्षणम् वणिक् विशेषात् सर्वमेवैतत्सञ्जज्ञे राजकर्मण अनुकर्षम् च निष्कर्षम् व्याधिपावकमूर्च्छनम् सर्वमेव न तत्रासीद्धर्म नित्ये युधिष्ठिरे दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम् राजवल्लभतश्चैवा नाश्रूयतमृषाकृतम् प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम् अभिहर्तुं नृपाश्यश्च पृथक् जात्यैश्च नैगमैः वव्रथे विषयस्तत्र धर्म नित्ये युधिष्ठिरे कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः सर्वव्यापी सर्वगुणी सर्वसाहस सर्वराट् यस्मिन्नधिकृतः सम्राट् भ्राजमानो महायशाः यत्र राजन् दश दिशः पितृतो मात्रतस्तथा अनुरक्ताः प्रजा आसन्ना गोपालाद्विजातयः वैशम्पायन उवाच समन्त्रिणः समानाय्य वरः राजसूयं प्रति तदा पुना ते पृच्छमानाः सहिता वचोर्थ्यम् मन्त्रिणस्तदा युधिष्ठिरं महाप्राज्ञम्ब्रुवन् ये येनाभिषिक्तो नृपतिर्वारुणम् गुणमृच्छति तेन राजापि तं कृस्नम् सम्राड्गुणमभीप्सति तस्य सम्राड्गुणार्हस्या भवतः पुरु नन्दन राजसूयस्य समयम् मन्यन्ते हृसुहृदस्तवा